गरुडपुराणम् आचारकाण्डम् अध्यायम् हण्ड्रेड् अण्ड् वण् याज्ञवल्क्य उवाच श्रीकामः शान्तिकामो वाग्रहदृष्ट्यभिचारवान् ग्रहयज्ञम् समम् गुर्याद्ग्रहाश्चैदे बुधैः स्मृताः सूर्यसोमो मङ्गलश्च बुधश्चैव बृहस्पतिः शुक्रश्शनैश्चरो राहुके दुर्ग्रह गणा स्मृताः ताम्रकांस्य स्फाटिकाद्रक्तचन्दनात्स्वर्णकादुभौ रक्तशुक्लस्तथा रक्तपीधपीधसिद्धोऽसित कृष्णकृष्णक्रमद्वर्णद्रव्याणि मुनयस्तदः स्थापयेद्गहवर्णानि होमार्थं प्रलिखेत् पटे स्नापयेद्होमयेच्चैव ग्रहद्रव्यैर्विधानदः सुवर्णानि प्रदेयानि वासांसि सुसमानि च गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः कर्तव्यास्तत्र मन्द्रैश्च चरभः आकृष्णेन इमं देव अग्निर्मूर्धा दिवकुत उद्बुद्ध्यस्वेदि जुहुयादेभिरेव यथाक्रमम् बृहस्पदे परि दीयेति सर्वे अन्नात्परिः सन्नो शन्नो देवी कया नश्चकेतुं क्रण्वन्यधिक्रमाद् अर्कपलाशखधिरस्त्वपा मार्गोधपिप्पलः औदुम्बरशमीदूर्वाकुशाश्च समिधक्रमाद होदव्यामधु सर्प्यर्भ्यां दध्ना चैव समन्वितः गुडौ दनं पायसं च हविष्यं क्षीरशाष्टिकं दध्योदनं हविपू मांसम् चित्रान्नमेव च दद्याद् ग्रहक्रमादेदान् ग्रहेभ्यो भोजनं तदः धेनुशङ्गस्तधा नड्वान् कृष्णा कृष्णागौराय संचागयेदा वै दक्षिणाक्रमाद ग्रहापूज्य सदा यस्माद्राज्यादिप्राप्यते फलम् यदि श्रीकारूडे महापुराणे आचारकाण्डे याज्ञवल्क्योक्तग्रहशान्तिनिरूपणं नामैकोत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् टु याज्ञवल्क्य उवाच वानप्रस्थाश्रमं वक्ष्ये तच्छृण्वन्तुमहर्षयः पुत्रेषु भार्यां निःक्षिप्य वनं गच्छेत् सहैव वानप्रस्तो ब्रह्मचारी साग्निः सोपासनः क्षमी अफालकृष्टेनाग्नींश्च पितृदेवातिथींस्तथा भृत्यांस्तु तर्पयेच्छष्मज्जडा लोमभृदात्मवान् दान्दस्त्रिसवर्णस्नायी निवृत्तश्च प्रतिग्रहाद स्वाध्यायवान्ध्यानलशी स्वाध्यायवान्ध्यानशीलसर्वभूतहितेरथः ह्नो मासस्य मध्ये वा कुर्याद्वार्थ परिग्रहम् कृतं त्यजे दाश्वयुजे युञ्जेत् कालं व्रतादिना पक्षे मासे धवाश्नीयाद्दन्तो लूकलिको भवेद चान्द्रायणि स्वपेद् भूमौ कर्म कुर्याद्फलादिना ग्रीष्मे पञ्चाङ्गनि मध्यस्तो सर्वार्षाः सुस्तण्डिलेशयः आर्द्रवासास्तु हेमन्दे योगाभ्यासाद्दिनं नयेद यःकण्डकैर्विदुदतिचन्द्रनैर्यश्च लिम्बदि अक्रुद्धपरिदुष्टश्च समस्तस्य च च इति श्रीगरूडे महापुराणे आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थधर्मनिरूपणं नामद्वयधिकशततमोऽध्यायः ओम् अध्यायम् हण्ड्रड् अण्ड् त्री याज्ञवल्क्य उवाच भिक्षोर्धर्मं प्रवक्ष्यामिति निबोधदसत्तमाः वनाद्गृहाद्वा कृत्वेष्टिं सर्ववेदसदक्षिणाम् प्राजापत्यन्तदन्तेऽपि अग्निमारोप्यजात्मनि सर्वभूतहितशान्तस्त्रिदण्डी सकमण्डलुः सर्वारामं परिव्रज्य भिक्षार्धो ग्राममाश्रयेद अप्रमत्तश्चरेद्भैक्ष्यं सा याह्ने नाभिलक्षितः रोहिते भिक्षुकैर्ग्रामे यात्रामात्रमलोलुभः भवेत्परमहंसो वा एकदण्डीयमादिदः सिद्धयोगस्त्यजन् देहममृतत्वमिहाप्नुयाद ददातिधिप्रियोज्ञानी गृही श्राद्धे विमुच्यते इति श्रीगारूढे महापुराणे आचारकाण्डे याज्ञवल्क्योक्तवानप्रस्थसन्न्यासधर्मनिरूपणं नाम त्रि उत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् फोर् याज्ञवल्क्य उवाच नरकात् पताकोद्भूतात्क्षयात् पापस्य कर्मणः ब्रह्मश्वाकरोष्ट्र स्यात् भेगो यकः सुराप्यपि तृणादिर्गुरुतल्पगः क्षयरोगी श्यावदन्धकुनखीशिपिविष्टकः ब्रह्महत्याक्रमात्स्युश्च तत्सर्वं वा शिशोर्भवेद अन्नहर्तामयावी स्यान्मोघोरागापहारकः धान्यहार्यतिर्यकृताङ्गपिशुनपूदिनासनः पूदिनासिकः तैलाहारी तैलपायी पूदिवत्रस्तु सूचकः ब्रह्मस्वं कन्यकाम् क्रीत्वा वने रक्षो भवेद्वृषः रत्नहृद्धी न जातः स्यात्पत्रशाकहरशिखी गच्छम् चुचुन्दरी हृत्वा ध्यानहृन्मूषको भवेद फलं कभिः पश्यून्हृत्वा त्वजा कागपयस्तथा मां संगृध्रपडं स्वित्री चीरीलवणहारकः यथा कर्मफलं प्राप्यतिर्यक््रुवं कालपर्ययाद जायन्ते लक्षणभ्रष्टा दरिद्रा पुरुषाधमः तदो निष्कलुषीभूताकुले महदियोगिनः जायन्ते लक्षणो वेदा धनधान्यसमन्विताः इति श्रीकारूडे महापुराणे आचारकाण्डे याज्ञवल्क्योक्तकर्म विपाकनिरूपणम् नाम चतुरुत्तरशततमोऽध्यायः अध्यायम् हण्ड्रेड् अण्ड् फैव् विहितस्याननुष्ठानान्निन्दितस्य च सेवनाद् अनिग्रहाच्चेन्द्रियाणाम् नरः पदनमृच्छति तस्माद्यत्नेन कर्तव्यं प्रायच्चित्तम् विशुद्धये एवमस्यान्तरात्मा च लोकश्चैव प्रसीदति लोकप्रसीदेदात्मैवम् प्रायश्चित्तैरकक्षयः प्रायश्चित्तमकुर्वाणापश्च तापविवर्जिताः नरकान्यान्तिपापा वै महारौरवरौरवान् तामिस्रं लोकशङ्कुं च पूधिगन्धसमाकुलं हंसाभं लोहितोदं च सञ्जीवननदीपधं महानिलयकाकोलमन्थतामिश्रवापनम् अविचीं कुम्भीपाकं च यान्तिपाबाह्यपुण्यदः संयोगी गुरुतल्पगः गुरुनिन्दा वेदनिन्दा ब्रह्महत्या समे ह्युभे निषिद्धभक्षणम् जिह्मक्रियाचरणमेव च रजस्वलामुखस्वादःसुरापानसमानितु अश्वरत्नादिहरणं सुवर्णस्थेयसंमिदम् सखि भार्याकुमारीषु स्वयो निष्वन्द्यजासु च स गोत्रासु तथा स्त्रीषु गुरुतल्पसमम् स्मृतम् पितुः स्वसारम् माधुश्च मातुलानीम् स्नुषामपि माधुःसपत्नीम् भगिनीमाचार्यतनयाम् तथा आचार्यपत्नीम् स्वसुताम् गच्छम् स्तु गुरुतल्पकः चित्वा वधत्तस्य स गोवधो व्रात्यदास्तेय मृणानाम् च परिक्रिया अनाहिताग्नितापण्य विक्रयः परिवेदनम् हृदकाध्यापनमन्तथा परदार्यम् पारिवित्यम् वार्धुष्यम् लवणक्रिया सच्चूद्रविक्षत्त सच्चूद्रविक्षत्रबन्धोर्निन्दितार्थोपजीविता नास्तिक्यम् व्रतलोपश्च शूल्यं गोश्वेव विक्रयः पितृमातृसुहृत्यागस्तडागारामविक्रयः कन्याया दूषण चैव परिविन्तकया जनम् कन्याप्रदानम् तस्यैव कौडिल्यम् व्रतलोपनम् आत्मनोऽर्धे क्रियारम्भो मद्यपस्त्री निषेवणम् स्वाध्याय बान्धवत्याग एव च असच्चास्त्राभिगमनम् धार्यात्मपरिविक्रयः उपपानि चोक्तानि प्रायश्चित्तम् निबोधद शिरकपालध्वजवान्भिक्षाशी कर्मवेदयन् ब्रह्म द्वादशसमामितभुक्षुद्धिमाप्नुयाद लोमभ्य स्वाहेति च वा लोमप्रभृति वैतनुम् मज्जान्ताम् जिहुयाद्वापि स्वस्वमन्त्रैर्यथाक्रमम् शुद्धिः स्याद्ब्राह्मणत्राणाकृत्वैवं शुद्धिरेव च निरातङ्गम् द्विजङ्गां च ब्राह्मणार्ते हतोऽपि वा अरण्ये नियतो जत्वा त्रिकृत्वो वेदसंहितां सरस्वतीं वा संसेव्यं धनं पात्रे समर्पयेत् यागस्तक्षत्र विट्कादे चरेद्ब्रह्मणो व्रतं गर्भः वा यथा वर्णं तथा त्रेयी सरेद्वरतमहत्वापि खादनार्थमुपागतः द्विगुणं सवनस्ते दुब्राह्मणे व्रतमाचरेद सुराम् पीत्वा शुद्धिः सुरापिणः अग्निवर्णं घृतं वापि चिरवास जडी व्रतं ब्रह्मण कुर्यात् पुनः संस्कारमर्सति रे देवीन्नोत्रपानाच्च सुरापाब्राह्मणी तथा पतिलोकपरिभ्रष्टा भृध्री सूकरीशुनी स्वर्णहारी ध्वजो राज्ञे दत्त्वादु तथा कर्मणख्यापनम् कृत्वा खतस्ते न भवेच्छुचिः आत्मतुल्यं सुवर्णं वा दत्त्वा शयने सार्धमा यस्यां योषिता निभृतं स्वपेद उच्छेद्यलिङ्गम् मृषणं नैरुत्यात्सृजोद्दिशि प्राजापत्यं चरिकृच्छ्रं समा वा गुरुतल्पगः चान्द्रायणं वा त्रीन्मासनभ्यसे द्वेदसंहितां पञ्चगव्यं पिबेद् गोघ्नो मासमासीदसंयतः गोष्ठेशयो गोऽनुगामी गोप्रदानेन शुध्यदि उपपादकशुद्धि स्याच्चान्द्रायणव्रतेन च पयसा वापि मासेन पराकेणापि वा पुनः ऋषभैकम् सहस्रम् गा चरेद वैश्याहाब्दम् च रेदे तद्द्या द्वैकशतं गवां षण्मासाक्षूद्रः चैदद्द्याद्वाधेनवो दश अप्रदुष्टां स्त्रियं हत्वा शूद्रहत्या व्रतं च रेद मार्जार गोधनकुलपशुमण्डूकखादनाद पिबेत् क्षीरम् त्र्यहम् पापी कृच्छ्रम् वाप्यधिकम् चरेद गजे नीलान् वृषान् पञ्चसुके वत्सम् द्विहायनम् खराजमेषु वृषोदेयक्रौञ्जे त्रिहायणः वृक्षगुल्मलतावीरुचेदने जप्य मृक्षदम् अवकीर्णो भवेद्गत्वा ब्रह्मचारी च योषितं गर्दभं पशुमालभ्यनैरृतं च विशुध्यति मधुमांसाशने कार्यम् कृच्छ्रम् शेषव्रतानि च कृच्छ्रत्रयं गुरु प्रहितो यदि प्रतिकूलं गुरो कृत्वा प्रसाद्यैव विशुद्ध्यति रिपून्ध्यान्यप्रदानान्यैस्नेहाद्यायर्वाप्युपक्रमेद क्रियमाणोपकारे च मृते विप्रेनपादकम् महापापोपपापाभ्याम् योभिः शस्तो मृषा परम् अभक्षो मासमासीद सजाभि नियतन्द्रियः अनियुक्तो भ्रातृभार्यां गच्छन् चान्द्रायणं चरेद त्रिरात्राम् देघृतं प्राश्य गत्वो दख्यां शुचिर्भवेद गोष्ठे वसन् ब्रह्मचारीमासमेकम् पयोव्रती गायत्री जप्य निरदोमुच्यते सत्प्रतिग्रहाद त्रिकृच्छ्रमाचरे व्रात्य या च कोऽपि चरन्नपि त्यक्त्वा च शरणागदान् प्राणायामत्रयम् गुर्यात्करया नोष्ट्रया नगः नग्नस्नात्वा च सुक्त्वा च चैव दिवा स्त्रियम् गुरुत्वम् कृत्य हुं कृत्य विप्रं निर्जित्य वादधः प्रसाद्य तं च मुनयस्तदो ह्युपवस्येद्दिनम् विप्रे दण्डोद्यमे कृच्छ्रमधिकृच्छ्रं निपादने देशं कालं वयशक्तिम् पापम् चावेक्ष्य यत्नदः प्रायच्छितम् प्रकल्प्यं स्याद्यत्र योक्तादु निष्कृधिः गर्भत्यागो भर्तृनिन्दास्त्रीणां पदनकारणं एष ग्रहान्तिके दोषस्तस्मात्तां दूतरस्त्यजेद विख्यातदोषकुर्वीदगुरोरनुमतं व्रतम् अस् संविख्याददोषस्तु रहस्यं ब्रदमाचरेद त्रिरात्रो पोषणो जप्त्वा ब्रह्म त्वखमर्षणम् अन्तर्जले विशुद्धे च दत्त्वा गाञ्चपयस्विनीं लोमभ्यस्वाहेदिर्जादिवसं मारुदाशनः जले जप्त्वा दुजुह्वायात् चत्वारिंशत्कृदाहुदिः त्रिरात्रोपोषणो हुत्वा कूष्माण्डीभिर्घृतम् शुचिः सुरापस्वर्णहारीजरुद्रजापि जले स्थितः सहस्रशीर्षाजप्येन मुच्यते गुरुतर्पकः प्राणायामशतं कुर्यात्सर्वपापापनुक्रिये ओङ्काराभियूतं सोम सलिलप्रशनाच्युचिः कृत्वोपवासं प्रेदो विन्मूत्राणाम् प्राशने द्विज अज्ञानकृतपापस्य न कृते रुद्रैकादशजप्याग्निपापनाशो भवेद्विजैः वेदाभ्यासरथम् शान्तं पञ्चयत्नक्रियापरम् न स्पृशन्ति हा पापानि चाशुस्मृत्वा सहस्रगायत्रीं शुचिर्ब्रह्मणः शुचिर्ब्रह्म ब्रह्मचर्यम् दया क्षान्त्यर्ध्यानम् सत्यमकल्कता अहिंसास्तेयमाधुर्येदमश्चैदेयमास्मृताः स्नानम् मौनोपवासोऽज्यास्वाध्यायोपस्थनिग्रहः तपोक्रोधो गुरोर्भक्तिशौचम् च नियमा स्मृताः पञ्चगव्यम् दु गोक्षीरं दधिमूत्रशकृघृतम् जग्ध्वा परेष्ण्युपवश्येत्कृच्छ्रम् सान्तपनं चरेद पृथक् सान्तपनैर्द्रव्यैषडसोपवासकः सप्ताहेन दुकृच्छ्रोऽयं महासान्तपनस्मृतः पर्णो दुम्बरराजीवबिल्वपत्रकुशोदकैः प्रत्येगं प्रत्यहाभ्यस्तै पर्णकृच्छ्र उदाहृदः मेकैकं मेकैकम् प्रत्यहम् पिबेद एकरात्रोपवासश्च तप्तकृच्छ्रश्च पावनः एकभक्तेन नक्रेण तथैवा याचितेन च उपवासेन चैकेन पादकृच्छ्र उदाहृतः यथा कथञ्चित् त्रिगुणप्रजापत्योयमुच्यते अयमेवादिकृच्छ्रस्यात्पाणिपूर्णाम्बुभो जनाद कृच्छ्रादिकृच्छ्रम्पयसादिवसानेकविंशतिं द्वादशाहोपवासैश्च परागः समुदाकृतः पिण्याकाचा मद क्राम्बुसक्रूणाम् प्रतिवासरं येकैकमुपवासश्चकृच्छ्रसौम्यो यमुच्यते येषां त्रिरात्रमभ्यासादेकैकं स्याद्यथाक्रमाद तुलापुरुष इत्येषेय पञ्चदशाहिकः तिथिपिण्डां सरेद्वृद्ध्या शुक्ले शिख्यण्डसंमितान् एकैकं ह्रासयेत् कृष्णे पिण्डं चान्द्रायणं चरेद यथा कथञ्चित्पिण्डानां चत्वारिंशच्छदद्वयं मा सेनैवोपभुञ्जीद चान्द्रायणमधापरम् कृत्वा तृशवणं स्नानं पिण्डं चान्द्रायणं चरेद पवित्राणि जपेत् पिण्डान् गायत्र्याश्चाभिमन्द्रयेद अनादिष्टेषु भावेषु शुद्धिश्चान्द्रायणेन तु धर्मार्धो यश्चरे देदच्छन्द्रस्यैति सलोकताम् कृच्छ्र कृद्धर्मकामस्तु महदीम् श्रियमश्नुते इति श्रीगारूढे श्री महापुराणे आचार्यकाण्डे याज्ञवल्क्योक्तप्रायच्चित्त विवेको नाम पञ्चोत्तरशततमोऽध्यायः ओ अध्यायम् 106 अण्ड् सिक्स् याज्ञवल्क्य उवाच प्रेताशौचम् प्रवक्ष्यामि तच्छृणुध्वम् यदव्रताः ऊनद्विवर्षम् निखनेन्न कुर्या कुर्यादुदकम् ततः आश्मशानादनुव्रजितरैन्यादिभिर्युदः यम सूक्तं तथा जप्यम् जपद्भिर्लौकिकाग्निना स दग्धव्य उपेतश्चैदाहिताग्न्या वृदार्थवत सप्तमाद्दशमद्वाभिज्ञादयोऽभ्युपयान्त्यपः अपनश्योचोच दखमनेन पितृदिङ्मुखाः एवं मादामः चार्यपत्नीनां चोदक्रियाः कामोदकपुत्रसखि स्वस्त्री यस्वशुरजितः कामोदकपुत्र सखि स्वस्त्री यश्वशुरर्द्विजः नाम गोत्रेण ह्युतकं सकृत्सिञ्चन्दिभाग्यताः पाषण्डपतितानां तु न कुर्यरुदक्रियाः न ब्रह्मचारिणो व्रात्यायोषिधकामगास्तथा सुराप्यस्त्वात्मकादिन्यो नाशौचोदगभा जनाः ततो न रोदितव्यं हि त्वनित्याजीवः संस्थितिः क्रियाकार्या यथा शक्ति गृहान् प्रदि विदश्य निम्बपत्राणि नियदा द्वारिवेश्मनः आचम्याधाग्निमुदगङ्गोमयं गौरः सर्षपान् प्रविशेयुः प्रविशेयु कृत्वाश्मनि पदं शनैः प्रवेशनादिकं कर्मप्रेद संस्पर्शनादपि ईक्षतां तत्क्षणाचुद्धिपरेषां स्नान संयमाद क्रीडलब्धासनभूमौ स्वपेयुष्टे पृथक् पृथक् पिण्डयज्ञकृदा देयं प्रेदायान्नं दिनत्रयं जलमेकाहमाकाशे ताप्यं क्षीरं तु मृण्मये वैतानोपासनाकार्या क्रियाश्च आदन्दजन्मनः सद्यः आचूडम् नैशिकी स्मृता त्रिरात्रमा व्रतादेशा दशरात्रमदः परम् त्रिरात्रम् दशरात्रम् वा शावमाशौ च ऊन द्विवर्ष उभयो सुतकमाधुरेव हि अन्तरा जन्ममरणे शेषाहोभिर्विशुभ्यदि षद्वादशवर्णानां तथा पञ्चदशैव च त्रिंशद्दिनानि च तथा भवति प्रेदसूदकम् अहस्त्वदत्तकन्यासु बालेषु च विशोधनं गुर्वन्तो वास्य नूचानमातुलश्रोत्रियेषु च अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च निवासराजनितदा तदहशुद्धिकारणम् हतानाम् नृपगो विप्रैरन्वक्षम् चात्मकादिनाम् विषाद्यैश्च हतानाम् च नाशौचम् पृथिवीपदेहे सत्रिव्रति ब्रह्मचारि दादृब्रह्मविदाम् तथा दाने विवाहे यज्ञे च सङ्ग्रामे देशविप्लवे आपद्यपि च कष्टायाम् सद्यशौचम् विधीयते कालोऽग्निकर्म मृद्वायुर्मनोज्ञानम् तपो जपः पश्चात्ताशो निराहारः सर्वेषां शुद्धिकेतवः अकार्यकारिणां दानं वेगो नद्यास्तु शुद्धिकृद क्षात्रेण कर्मणा जीवे द्विषां वाप्यापदि द्विजः फलसोमक्षौमवीरुदधिक्षीरं कृतं जलं तिलोदनरसक्षारमधुलाक्षाश्रुतं हविः वस्त्रोपलासवं पुष्पं शाक चर्मपादुकम् यण त्वचम् च कौशेयम् लवणम् मासमे भज पिण्यागमोलगन्धांश्च विक्रयेद धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः लवणादिन विक्रियात्तथा चापद्गतो द्विजः ीनाद्विप्रो विगृह्णंश्च लिप्यदेनार्कवद्विजः कुर्याकृष्यादिकम् तद्वदविक्रेया हयास्तथा भुक्षितस्त्रियम् स्थित्वा दृष्ट्वा वृत्तिविवर्जितम् राजा धर्म्याम् प्रकुर्वेदवृत्तिम् विप्रादिकस्य च इति श्रीकारूडे महापुराणे आचारकाण्डे याज्ञवल्क्योक्ता शौचपद्वृत्त्यो निरूपणं नाम पदुत्तर षडुत्तरशततमोऽध्यायः ओम् अध्यायं हण्ड्रेड् अण्ड् सेवेन् सूत उवाच पराशरो ब्रवीद्व्यासं धर्मं वर्णाश्रमादिकं कल्पे कल्पे क्षयोत्पत्याक्षीयन्तेऽनुप्रजादयः श्रुति स्मृति सदा चारो यः कश्चिद्वे दगर्धृकः पेदा स्मृदा ब्राह्मणादौ सदा लियुगे धर्मकर्तारम् च कल उत्यजेद पापकृत्यम् तु तत्रैव शापम् फलति वर्षदः आचारात् प्राप्नुयात् सर्वम् दिने दिने सन्ध्यास्नानम् जपोहोमो होमो देवातिथ्यादिपूजनम् अपूर्वसुव्रदि विप्रोह्यपूर्वा यत्र क्षत्रिह्य परसैन्यानि जित्वा पृथ्वीं प्रपालयेद वणिकृष्यादिवैश्ये स्याद्विजभक्तिश्च शूद्रके अभक्ष्यभक्षणा चौर्यादगम्या गमनात्पदेद कृषिं कुर्वन् द्विजश्रान्तं बलीवर्दं न वाहयेद दिनार्धम् स्नानयोगाधिकारी विप्रांश्च भोजयेद निर्वपेत् पञ्चयज्ञानि क्रूर्य निन्तां च कारयेद तिलाज्यं न विक्रीणिद सूनायज्ञमखान्विदः राज्ञो देवतानां च विशं विंशतिम् त्रयस्त्रिंशच्च विप्राणां कृषिकर्ता न लिप्यदे कर्षकाः क्षत्र विक्षूद्रा खले दत्त्वाद् चौरकः दिनत्रयेण शुद्ध्येदब्राह्मणप्रेदसूतके क्षतो दशाः द्वैश्यास्तु द्वादशान्मासि शूद्रकः यादिविप्रोदशाः तु क्षत्रो द्वादश पाब्धिनाद पञ्चदशाः द्वैश्यस्तु शूद्रो मास्य न शुद्ध्यति एकपिण्डास्तु धाया धा पृथग्ध्वारनिकेतनः जन्मना च विपत्तौ च भवतेषां च सूतकं चतुर्धे दशरात्रं स्यात् षण्णि पुंसि पञ्चमे षष्ठे चतुरहाच्युद्धिः सप्तमे च दिनत्रयं देशान्तरे मृदे बाले सद्यश्युद्धिर्यदो मृदे अजातदन्ता ये बालाय च गर्भाद्विनिसृताः न तेषामग्निस्संस्कारो यदि गर्भो विपद्यतस्त्रवते वापि योषितः यावन्मा संस्थितो गर्भस्तावद्दिनानि सूदकम् आमकरणात्सद्य अचूडान्तादहर्निशम् आव्रतात् तदूर्ध्वन् दशभिर्दिनैः आचदुर्धाद्भवेस् श्रवपादपञ्चमषष्टयोः ब्रह्मचर्यादग्निहोत्रान्नाशुद्धिसङ्घवर्जनाद शिल्पिनकारवो वैद्यादासीदासाश्च भृत्यकाः अग्निमान् श्रोत्रियो अग्निमाञ श्रोत्रीयो राजा दशाः शुभ्यते मादास्नासूते पिता शुचिः शङ्कासूदौ सूतकं स्यादुपस्पृश्य पिता शुचिः विवाहोत्सवयज्ञेषु अन्तरा मृतसूतके पूर्वसङ्कल्पिता च विधीयते मृतेन शुभ्यते सूदिम् मृतेन शुध्यते सूतिः मृदवज्जातकं जनौ गोग्रहादौ विपन्नानामेकरात्रं दो सूतकम् अनाथप्रेदवसनात् प्राणायामेन शुध्यति प्रेदशूद्रस्य आत्मकादि विश्वोद्वन्धकृमिदष्टेन संस्कृतिः गोखदं कृमिदष्टं च स्पृष्ट्वा कृच्छ्रेण शुध्यदि अदुष्टापदिदम्भार्या स्त्रीत्वं वैधव्यं च पुनः पुनः त्वगमनाधृतौजस्त्रीदुः सुगरी अगम्याव्रतकारिण्यो भ्रष्टपानोदगक्रियाः औरसः क्षत्रजपुत्रपिदृजौ पिण्डदौ पिदुः परिवित्तेस्तु कृच्छ्रं स्यात् कन्याया कृच्छ्रमे वच अधिकृच्छ्रं चरेदा दाहोदा चान्द्रायणञ्चरेद कुब्जवामनषण्डेषु गद्गदेषु जडेषु च जात्यन्धबधिरे मूकेन दोषपरिवेदने नष्टे मृदे प्रव्रजिदे क्लिबे वापदिदे पदौ पञ्चस्वापः सु नारीणां पतिरन्यो विधीयते भर्त्रा सखमृता नारी रो माब्दानि वसे दिवि स्वादिदष्टस्तु गायत्र्या जपा शुद्धो भवेन्नरः दाह्यो लोकाग्ना दाह्यो लोकाग्निना विप्रष्टाण्डालाद्यैर्सदोऽग्निमान् क्षीरैः प्रक्षाल्य तस्यास्ति स्वाग्निना मन्द्रदो दहेद प्रवासेदुमृदे भूय कृत्वा कुशमयं दहेद कृष्णाजिने समास्तीर्यषटतानि पलाशजान् शमीं शिष्णीं विनिः क्षिप्य अरणिं वृषणे खण्डं दक्षिणहस्ते दु वाम हस्तेत्तपो तथोपभृत पार्श्वे तूलूकलं दद्यात् पृष्टेदुमुसलं ददेद उरे निःक्षिप्य दृषदं तण्डुलाज्य तिलान्मुखे श्रोत्रे च प्रोक्षणीं दद्यादात्तालीं च चक्षुषोः कर्णे नेत्रे मुखे घ्राणे हिण्यशकला क्षिपेद अग्निहोत्रोपक ब्रह्मलोकगतिर्भवेद असौस्वर्गाय लोकाय स्वाहे त्याज हुदिस्द हंससारसक्रौंचा चक्रवाक्रुढ़ मयूरमेशकादीज अहो रात्रेण शुद्ध्यति पक्षिणः सकलान् हत्वा अहोरात्रेण शुध्यति सर्वान् चतुष्पदान् हत्वा अहोरात्रो शिजो जभेद शूद्रं हत्वा चरेत्कृच्छ्रमधिकृच्छ्रं तु वैश्यः क्षत्रं चाद्रायणं विप्रं द्वाविंशात्त्रिंशमापरेद इति श्रीकारूडे महापुराणे आचारकाण्डे पराशरोक्तधर्मनिरूपणं नाम सप्तोत्तरशततमोऽध्यायः ओम् अध्यायं 108 सूत उवाच नीतिसारं प्रवक्ष्यामि अर्धशास्त्रादिसंश्रितं राजादिभ्यो हितं पुण्यमायुस्वर्गादिदायकम् सद्भिः सङ्गं प्रकुर्वेदसिद्धिकामः सदा नरः ना नास्सद्भिरिहलोकाय परलोकाय वाहितं वर्जयेत् शुद्रसंवादमदुष्टस्य दुर्दर्शनं विरोधं सहमित्रेण सम्प्रीतिं शत्रुसेविना मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च दुष्टानां सम्प्रयोगेण पण्डितोऽप्यवसीदधि ब्राह्मणं बालिश्यं क्षत्रमयोद्धारं विषं जडम् शूद्रमक्षरसंयुक्तम् दुरदपरिवर्जयेत् कालेन रिपुणा सन्धिकाले मित्रेण विग्रहः कार्यकारणमाश्रित्यकालम् क्षिपति पण्डितः प्रजाः कालः सुप्तेषु हि दुरधिक्रमः कालेषु हरदे वीर्यं काले गर्भे जवर्तते कालो जनयदे सृष्टिं पुनः कालोऽपि संहरेद कालसूक्ष्मगतिर्नित्यम् द्विविधश्चेख भाव्यते स्थूलसङ्ग्रहचारेण सूक्ष्मचारान्तरेण च चा। नीतिसारं सुरेन्द्राय इममोच बृहस्पतिः सर्वज्ञो येन चेन्द्रो भूद्दैत्यान्हत्वाप्नुयात् दिवम् राजर्षिब्राह्मणै कार्यम् देवविप्रादिपूजनम् अश्वमेधेन यष्टव्यम् महापादकनाशनम् उत्तमैः सह साङ्गत्यम् उत्तमै सह सत्कथाम् अलुब्धैः सह मित्रत्वम् कुर्वाणो नावसीदधि परिवादं परार्थं च परिहासं परस्त्रियम् परवेश्मनिवासम् च न कुर्वीदकदाचन परोऽपि हित वा बन्धुर्बन्धुरप्यहितः परः अहितो देहजो व्याधिर्हितमारण्यमौषधम् स बन्धुर्योहिदे युक्तः स पिता यस्तु पोषकः तन्मित्रम् यत्र विश्वासः स देशो यत्र जीव्यते सभृत्यो यो विधेयस्तु तद्बीजम् यत्प्ररोहति सा भार्या या प्रियं ब्रूदे सपुत्रो यस्तु जीवति स जीवति गुणा यस्य धर्मो यस्य स जीवति गुणधर्मविहीनो यो निष्फलतस्य जीवनम् सा भार्याया गृहे दक्षा सा भार्याय प्रियं वदा सा भार्याया पदिप्राणा सा पदिव्रता नित्यस्नादा सुगन्ता च प्रियवादिनी अल्पभुक्ताल्पभाषी च सततं सततं धर्मबहुला सततं च पदिप्रिया सततं प्रियवक्री च सततं त्वर्तुकामिनी ये तदादिक्रियायुक्ता सर्वसौभाग्यवर्धिनी यस्येदृशी भवेद्भार्या स देवेन्द्रो न यस्य भार्या विरूपाक्षी कश्मलाकलहप्रिया उत्तरोत्तरवादास्य सा जरा न जरा जरा यस्य भार्या श्रुगान्यञ्जपरवेश्माभिकाङ्क्षिणी कुक्रिया त्यक्तलज्जा च सा जरा न जरा जरा यस्य भार्या गुणज्ञा जर्तारमनुगामिनी अल्पाल्पे न दुसन्तुष्टा सा प्रिया न भृत्यश्चोत्तरदायकः स गृहे वासो मृत्युरेवन संशयः त्यज दुर्जनसंसर्गम् भज साधुसमागमम् कुरु पुण्यमहोरात्र स्मरनित्यमनित्यदां व्यालीकण्ठप्रदेशाह्यपि च फणभृद्भाषणा याज रौद्रीया कृष्णा रुधिरनयन रुधिरनयनसंव्याकुला व्याघ्रकल्पा क्रोधे यैवोग्रवक्त्रा स्फुरदनल शिखा काकजिह्वा कराला सेव्या न स्त्री विदग्धा परपुरगमनाभ्रान्तचित्ता विरक्ता सकृतो सकृतिः सूतोके सुकृतं कृधग्ने सतिं च वाग्नौ सीतापसौ क्यतपयैव वा है पद्यदे दैववशात् कदाचिद्वेष्यसुरागो नभवे भवेत् कदाचित् भुजङ्गमेवेश्मनि दृष्टिदृष्टे व्याधौ चिकित्सा विनिवर्तिते च जा जा बाल्यादि जाल्यादिवयोऽन्विते च बालावृतोऽसौ लभदे धृतिं कः इति श्रीगारुडे महापुराणे आचारकाण्डे बृहस्पतिप्रोक्तनीति सारनिरूपणम् नामाष्टोत्तरशततमोऽध्यायः ओम् गरुडपुराणम् आचारकाण्डम् अध्यायम् हण्ड्रेड् अण्ड् नैन् सूत उवाच अपदर्थे धनम् रक्षे दारान् रक्षेद्धनैरपि आत्मानम् सतदम् रक्षे कुलस्यार्थे ग्रामस्यार्थे कुलम् त्यजेद ग्रामम् जनपदस्यार्थे आत्मार्थे पृथिवीम् त्यजेद वरं हि नरके वासो न तु गृहे नरकाक्षीयदे पाप कुगृहान्न निवरुददे चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् न परं स्थानं पूर्वमायतनं त्यजेद दे। त्यजेद्देशमसद्वृत्तं वासं सोपद्रवं त्यजेद त्यजेत् कृपणराजानं मित्रं माया मयं त्यजेद् अर्धेन किं कृपणहस्तगतेन केन ज्ञानेन किं बहुशठाग्रहसङ्कुलेन रूपेण किं गुणपराक्रमवर्जितेन मित्रेण किं व्यसनकालपराङ्मुखेन अदृष्टपूर्वा बहवत्सहाया सर्वे पदस्थस्य भवन्ति मित्राः अर्धैर्विहीनस्य पदच्युतस्य भवत्य स्वजनो विशत्रुः आपत्सु मित्रम् जानीया द्रणे शूरम् रहशुचिम् मार्या वृक्षम् क्षीणफलम् त्यजन्ति विहगाशुष्कम् सरसारसा निर्द्रव्यम् पुरुषं त्यजन्ति गणिका भ्रष्टम् नृपम् पुष्पं पुष्पम् पर्युषितम् त्यजन्ति मधुपा दर्ध वणान्तम् मृग सर्वकार्य वसाज्जनो किरमदे कस्यास्ति वल्लभः लुब्धमर्धप्रदानेन श्राद्ध्यमञ्जलिकर्मणा मूर्खं चन्दानुवृत्त्या च यद्धा तभ्येन पण्डितम् सद्भावेन इतरे खाद्यपानेन मानदानेन पण्डिताः उत्तमं प्रणिपादेन शठम् भेदेन योजयेद् स्वल्पप्रदानेन समं तुल्यपराक्रमैः यस्य यस्य हि यो भावस्तस्य तस्य हितम् वदन् अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेद् नदीनां च च शृङ्गिणां शस्त्रपाणिनां विश्वासो नैव गन्तव्यस्त्रिषु राजकुलेषु अर्धनाशं मनस्तापम् गृहे दुश्चरितानि च वञ्चनम् चापमानम् च मदिमान्न प्रकाशयेद हीनदुर्जनसंसर्ग अत्यन्तविरहादरः स्नेहोऽन्यगेहवासश्च नारी सच्चीलनाशनम् कस्य दोषकुले नास्ति केन नव्यसनं प्राप्तं श्रियः कस्य निरन्तराः कोर्धं प्राप्य न भुवि नरकस्यापदो नागता स्त्रीभिः कस्य न भुवि मनको नाम राज्ञां प्रियः कालस्य न गदो गौरवं को वा दुर्जन वागुराणि पदिधः क्षेमेण यादः पुमान् सुहृत्स्वजनबन्धुर्न बुद्धिर्यस्य न यस्मिन् कर्मणि सिद्ध्येऽपि न दृश्येद फलोदयः विपत्तौ च कथमाचरेद यस्मिन् देशेन सम्मानं न प्रीतिर्न च बान्धवाः देशं परिवर्जयेद धनस्य यस्य राजदोभयं न चास्ति चौरदाः मृतं च यन्नमुच्यदे समार्जयस्व तद्धनं यदर्जितं प्राणहरै परिश्रमैर्मृतस्य तं वै विभजन्तिर्धिनः कृतं च यत् दुष्कृतमर्धलिप्सया तदेव दोषोपहतस्य यौतुकम् सञ्चितं निहितं द्रव्यं परामृश्यं मुहुर्मुहुः आकोरिवकदर्यस्य धनं दुःखाय केवलं नग्ना व्यसनिनो रुक्षा कपालाङ्गितपाणयः दर्शयन्तीहलोकस्य अदादुफलमीदृश्यम् शिक्षयन्ति च याचन्ते देहीति कृपणा जनाः अवस्थेयमदानस्य मा भूदेवम् भवानपि सञ्जितम् क्रदुःशतैर्नयुज्यते याचितम् गुणवते न दीयते परिरक्षितं परिरक्षितम् धनम् गृहे प्रयुज्यते दे। न देवेभ्यो न विप्रेभ्यो बन्धुभ्यो नैव चात्मने कदर्यस्य धनं व्याधित्वग्नितस्करराजसु अदिक्लेशेन एप्यर्था धर्मस्यादिक्रमेण च अरेर्वा प्रणिपादेन माभूतस्ते कदाचन विद्या खादोह्यनभ्यासस्त्रीणाम् खादकुचैलता व्याधीनाम् भोजनम् जीर्णम् शत्रोर्खादप्रपञ्चता तस्तरस्य वधोदण्डकुमित्रस्याल्पभाषणम् पृथक्षय्यादु नारीणाम् ब्राह्मणस्यानि मन्त्रणम् दुर्जना शिल्पिनो दासा दुष्टाश्च पडहा स्त्रियः पाण्डिदामार्दवम् यान्ति जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे ले जबयाञ्च विभवक्षये स्त्रीणाम् द्विगुण आभारप्रज्ञा चैव चतुर्गुणाम् षड्गुणो व्यवसायश्च कामश्चाष्टगुणस्मृतः न स्वप्नेन जये निद्राम् न कामेन स्त्रियम् जयेद न चेन् धनैर्जये ध्वनिम् न मध्ये न दृशां जयेद स मांसैर्भोजनैः स्निग्धैर्मध्यैर्गन्धविलेपनैः वस्त्रैर्मनोरमैर्माल्यैः कामस्त्रीषु विजृम्भदे ब्रह्मचर्येऽपि वक्तव्यं प्राप्तं मन्मथचेष्टितम् हृद्यम् हि पुरुषम् दृष्ट्वा यो निः प्रक्लिद्यदे स्त्रियाः सुवेशम् पुरुषम् दृष्ट्वा भ्रातरम् यदि वा सुतम् यो निक्लिद्यदि सत्यं सत्यं सत्यम् हि शौनः नद्यश्च नार्यश्च समस्वभावा स्वतन्त्रभावे गमनादिके च तोयैश्च दोषैश्च निपादयन्ति नद्यो हि कुलानि कुलानि नार्यः नदी पादयदे कुलम् नारी पादयदे कुलम् नारीणाञ्ज नदीनां च स्वच्छन्दालिदागधिः नाग्निस्तृप्तिकाष्ठानाम् नापगानाम् मनो दधिः नान्तकः सर्वभूतानाम् न पुंसाम् वामलोचनाः न तृप्तिरस्तिशिष्ठानामिष्ठानाम् प्रियवादिनं सुखानाञ्ज सुदानाञ्ज जीवितस्य वरस्य च राजा न तप्तो धनः सञ्चयेन न सागरस्तृप्तिमगाज्जलेन न पण्डितस्तृप्यतिभाषितेन तृप्तं न चक्षुर्नृपदर्शनेन स्वकर्मधर्मार्जितजीवितानां शास्त्रेषु दारेषु सदारदानां जितेन्द्रियाणामधिप्रियाणां गृह्ये विमोक्षः पुरुषोत्तमानां मनोनुकूलाप्रमदारूपवत्यस्वलङ्कृताः वसप्रसाद वसप्रसादपृष्टेषु स्वर्गस्याच्युभकर्मणः न दानेन न ना, ना मानेन नार्जवेन ना न ना, ना सवया न न शास्त्रेण शास्त्रे सर्वदा विषमः स्त्रियः शनैर्विद्या शनैर्धा पर्वदमायुहेद शन है कामम् च धर्मं च पञ्चैतानि शन है देवपूजादि विप्रदानम् च शाश्वतम् शाश्वतम् सगुणाविद्या सुहृन् मित्रम् च शाश्वतम् ये बालभावान्न पठन्ति विद्याम् ये यौवनस्ताह्यधनात्मधाराः ते शोचनीया इह जीवलोके मनुष्यरूपेण मृगाश्चरन्ति पठने भोजने चित्तम् न कुर्याच्छास्त्रसेवकः सुदूरमपि विद्यार्थो व्रजे गरुडवेगवान् ये बालभावेन पठन्ति विद्याम् कामातुरा यौवननष्टवित्ताः ते वृद्ध भावे परिभूयमानास् सन्दह्यमाना शिशिरे यथाब्जम् तर्के प्रदिष्टा विभिन्ना नास्ता वृषिर्यस्य मदं न भिन्नम् धर्मस्य तत्त्वम् निहितम् गुहायाम् महाजनो येन गदः आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च नेत्रवक्रविकराभ्याम् लक्ष्यतेऽन्तर्गतं मनः अनुक्तमप्यूहदिपण्डितो जनपरङ्गितज्ञानफलाहिबुद्धयः उदीरितोर्थपशुनापि गृह्यदेहयाश्च नागाश्च वहन्ति ृषितम् अर्धाद्भ्रष्टस्ततीर्थायाम् अर्थाभ्रष्टस्तीर्थयात्राम् तु गच्छेत् सत्याद्भ्रष्टो रौरवम् वै व्रजेच्च योगाद्भ्रष्टः सत्यधृतिश्च गच्छेद्राज्याद्भ्रष्टो मृगयायाम् व्रजेच्च इति श्रीकारूडे महापुराणे आचारकाण्डे बृहदृनीदिसारे नवोत्तरशततमोऽध्यायः ओम् अध्यायम् हण्ड्रेड् अण्ड् 110 सूत उवाच योद्ध्रुवाणि परित्यज्य ह्यध्रुवाणि निषेवदे ध्रुवाणि तस्य नश्यन् दिह्य ध्रुवम् नष्टमेव नरस्य विद्याशस्त्रम् यथा का पुरुषस्य हस्ते न तुष्टिमुत्पादयदे शरीरे ह्यन्तस्य धारा इव विभवेदान विभवेदानशक्तिश्च नाल्पस्य तपसफलम् अग्निहोत्रफलवेदाशीलवृत्तिफलं शुभं रतिपुत्रफलाधार दत्तभुक्लफलं धनं परयेत्कुलजां प्राज्ञो विरूपामपि कन्यकां सुरूपां सुनितं नाकुलीनां कदाचन अर्थेनापि हि किं तेन यस्यानर्थे तु सङ्गतिः कोहि नाम शिखाजादम् पन्नभस्य मणिं हरेद अविर्दुष्टकुलद्वाह्यं बालादपि सुभाषितम् अमेढ्यात् काञ्चनं ग्राह्यं स्त्रीरत्नं दुष्कुलादपि विषादप्यमृतं ग्राह्यममेध्यादपि काञ्चनम् नीचादप्युत्तमां विद्यां स्त्रीरत्नं दुष्कुलादपि न रत्नः सह मित्रत्वं न सर्पो निर्विषक्रजिद न कुलं निर्मलं तत्र स्त्रीजनो यत्र जायदे कुले नियोजयेद्भक्तं पुत्रं विद्या सुयोजयेद् व्यसने योजये चत्रुमिष्टं धर्मे नियोज्यत नियोज्येत स्थानेष्वेव प्रयोक्तव्या भृत्याश्चाभरणानि च न हि चूडामणि पादे शोभदे वै कदाचन चूडामणिः समुद्रोऽग्निर्खण्डा चाखण्डमम्बरम् अथवा पृथिवीपालो मूर्ध्नि पादे प्रमाददः कुसुमस्तभगस्येव द्वेगदीदु मनस्विनः मूर्ध्नि वा सर्वलोकानां शीर्षधपतितो वने कनकभूषण सङ्ग्रहणोचितो यदि मणिस्त्रभुणि प्रतिबध्यदे न चाभि सशोभदे भवति यो जयितुर्वचनीयता वाजिवारणलौहानां काष्ठपाषाणवाससं नारी पुरुषतोयानामन्तरं महदन्तरं कदर्धितस्यापि हि धैर्यवृत्तेर्न शक्यते सर्वगुणप्रमाधः अधकलेनापि कृतस्य वन्नेर्नाधशिखा कदाचिदेव न सद्वस्वकशाखादं सिंहो न गजगर्जितं वीरो वा परनिर्दिष्टं न सहेद्भीमनिस्वनं यदि विभव विभवविहीनप्रच्युदो वासु दैवान्न तु कलजनसेवां काङ्क्षयेन्नैवं न तृणमधनकार्ये सुक्षुद्धार्तोक्तिसिंह पिबदिरुधिरमुष्णम् प्रायश कुञ्जराणां सकृद्दुष्टञ्च यो मित्रम् पुनः सन्ध्याधुमिच्छति स मृत्युमेव गृह्णीयाद्गर्भमश्वतरी यथा शत्रोरपत्यानि प्रियं तान्येव कालेषु विपत्पराणि विशस्य पात्राण्यपि दारुणानि उपकारगृहीतेन शत्रुणा शत्रुमुद्धरेद पादलग्नम् करस्तेन कण्डकेनैव कण्डकम् अपकारपरान् नित्यम् चिन्तयेन्न कदाचन स्वयमेव पदिश्यन्ति कुलजादा इव अनर्था ह्यर्थरूषाश्च अर्थाश्चानर्थरूपिणः भवन्ति ते विनाशाय दैवायत्तस्य वै सदा कार्यकालोचिता पापामधिः सञ्जायते हि वै सानुकूल्ये तु दैवेशम् जायते धनप्रयोगकार्येषुः तदा विद्यागमेषु च आहारे व्यवहारे च त्यक्तलज्जः सदा भवेद धनिनश्रोत्रियो राजा नदी वैद्यस्तु पञ्चमः पञ्चयत्र न विद्यन्ते न कुर्यात् तत्र संस्थितम् लोकयात्राभयम् लज्जा दाक्षिण्यम् दानशीलता दा। पञ्च यत्र न न तत्र दिवसं वसेद कालविच्छोत्रियो राजा नदी साधुश्च पञ्चमः येदे यत्र न विद्यन्ते तत्र वासं न पारयेद नैकत्र परिनिष्ठासि ज्ञानस्य किल शौनक सर्वं न जानाति सर्वज्ञो नास्ति कुत्रचिद न सर्ववित् कश्चिदिशास्ति लोगे नात्यन्तमूर्खो भुवि चापि कश्चिद् ज्ञानेन नीचोत्तममध्यमेन योऽयं विजानादिश तेन विद्वान् युधि श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ रे दशोत्तरशततमोऽध्यायः ओम